खण्डम् चलच्चारुषुण्डम् जगत्राण शङ्खम् लसद्द काण्डम् विभद्भङ्गचण्डम् शिव प्रेम पिण्डम् भजेव क्रतुण्डम् अनाद्यम् तनाद्यम् परं तत्त्वमर्थम् चिराकारमेकम् तुरीयम् त्वमेयम् हरिब्रह्म मृग्यम् परब्रह्म ैव मीरे स्वशक्ताधि शक्रिंहासनस्थम् मनोहारि सर्वाङ्गरत्नादिभूषम् जटा हीन्दु गङ्गास्ति षश्यर्तमौलिम् परं शतं तत्त्वविद्याम् अतीतं परं त्वं कथं वेत्ति को वा प्रवालप्रवाहप्रभाषोणमर्थं मरुत्वं मणि श्रीमहश्याममर्थं स्मरामि स्मरापक्ति सम्पर्कि हेतुं स्वसेवा समायात देवा सुरेन्द्राणमन्मौलिमन्दारमालाभिषिक् रमस्यामि शम्भोपदाम्भोरुहं ते भवाम्भोधिपोतं भवानी विभाव्यं जगन्नाथ मन्नाथ गौरी सनाथ प्रबन्धानुकम् पिण्डिकन्नातिहारि नहस्तो मम ते समस्तैकबन्धो नमस्ते नमस्ते पुनस्ते नमोऽस्तु महादेव देवेश देवादिदेव स्मराय भक्त्या भवन्तयाशील देव प्रसीद विरूपाक्षविश्वेश्ववि यादिकेश त्रयी मूलशम्भो शिवत्यम्बकत्वम् प्रसीदस्मरत्राहि पश्यावपुष्य क्षमस्वाप्नुत्यक्ष पारित्वमस्वम् त्वरन्यः शरण्यः प्रपन्नस्य नित्य प्रसीदस्मरन्येव हन्यास्तु दैन्यम् न चेत्ते भवेद्भक्तवात्सल्यहानिस्ततो मे दयालोदयाम् सन्निधेहि अयम् दानकालस्य स्वहं दानपात्रम् भवान्नाथ दाता त्वदन्यन्न याचि भवद्भक्तिमेव स्थिराम् देवि मह्यम् कृपाशीलशम्भो कृतातोऽस्मि तस्मात् पशुम्बेसि त्वमेव द्विजिह्वः पुनः सोऽपि ते धन्या न कर्तुम् परद्रोहदेश कथम् प्रीयसे त्वम् न जाने गिरीश तदा हि प्रसन्नोऽसि कस्यापि कान्तासु तद्रोहिणो वा पितृद्रोहिणो वा स्तुतिम् ध्यानमर्चम् यथावद् विधातुम् भजन् न प्यजानन् महेशावदम्बि प्रसन्तम् सुतम् प्रातुमग्ने मृकण्डोर्यमप्राणनिर्वाप त्वत्पदात्रम् अघण्ठे कलङ्कारनङ्गे भुजङ्गादपाणौ कपालादभालेन लाक्षा अमौलौ शशङ्काद वामे कलत्रादवम् देवमन्यम् मन्ये न शिरो दृष्टि गशूलप्रमेहज्वराशोजरायक्ष्महि का विषातान् त्वमाद्योभिषक्देशजम्भस्म भद्रोऽस्मि यूये विषण्णु विपाङ्गो स्मि सन्नोऽस्मि भिन्नोऽस्मि चाहम् भवान् प्राणिनान्तरात्मासि शम्भो ममादि न वेत्सि प्रभो रक्ष मां त्वं त्वरक्षो कटाक्षः पति त्यक्षयत्र च लक्ष्मि स्वयं तम् वृणीते गिरीटस्फुरच्चामरच्छत्र माला कलाची गज क्षामभूषा विशेषै पित्रे नाङ्गे वृणाय अपघग्ने मघग्ने शिवङ्गे शिवङ्गाय कुर्मः शिवाय शिवायाम्बिकाय नमस्त्यम्बकाय भवद्गौरवं मल्लभुत्वं विदित्व प्रभो रक्षकारुण्यदृष्ट्यानुगम्हम् दुण्या शिवात्मानुभावस्तु तावक्षमोह स्वशक्त्या कृतं मे पराधम् यदा कर्म रन्ध्रं व्रजेत् कालवाहत् द्विषत्कण्ठघण्टागणाकारणात् वृषाधीशमारुह्य देवौपवाक्यम् तदावत् समाभिरिति वीणय त्वं यदा दारुणाभाषणाभीषणामि भविष्यत्युपाते कृतां तस्य दूता अदामल् मन मनस्पत्पदम् भारुहस्थम् कथं निश्चलं स्यान्न स्ते स्तुशम्भो यदा तु निवारव्यतोऽहं शयानु लुढन्निश्वसन् निसृता व्यक्तवाणि तदा जन्नुकन्या जलालङ्कृतम् चेत् दयो मत्सकाशेरुदान्तस्य वा कीदृशीयम् तदा देवदेव शा नमस्ते शिवाये You're the only one स्वानयम् श्वास एवेति वाचो भवेयुः तदा भूतिदूष भुजङ्गावनद्धम् पुरारे भवन्तं स्फुटं भावयेयम् यदा यातनादेह सन्ते भवाहि भवेदात्मदेहे नमो हो महान्मे तदा काशीतांशु सङ्काशमेष स्मरारे वपुस्ते नमस्ते स्मराणि यदा पारमच्छायमस्था जनैवादीनम् गमिष्यामि मार्गम् तदा तम् निरुद्धम् कृता तस्य मार्गम् महादेव मह्यम् मनोज्ञम् प्रयच्छ यदा गौरवादिस्मरन्नेव भीत्या प्रणाम्यत्र मोहम् महादेव घोरम् तदा मामहो नागतस्तारयिष्य यदा तम् यदा श्वेतपत्राय कालङ्क्यशक्ति कृतान्ताद्वयं भक्तवात्सल्यभावात् तदा पाहि मम पार्वती वल्लवान्यं न पश्यामि पातारमेतादृशम् मे इदानीम् इदानीमृतिर्मे भवि त्यः सन्ततं चिन्तया पीडितोऽस्मि कथं हा ममाहूमृतौ भीतिरेशा नमस्ते गतीनाम् गते नीलकण्ठ अमर्यादमेवाहमाबालवृद्धम् वृत्रं हरन्तम् कृतान्तम् समीक्ष्यामि भीतो मृतौ तावकाण्ठम् च दिव्य प्रसादात् भवानी पते निर्भयोऽहम् भवानी जराजन्म िदुःखान् यसह्यानि जह्याम् जगन्नाथ देव भवन्तम् विनामि गतिर्नैव शम्भोदयालो न जागर्ति किम् वादया ति शब्दो नमः पूर्व एष स्वरन्मुक्तिकृन्मृत्युघा तत्त्ववाचि वचस्त सदा मह्यमेतत् प्रधानम् प्रयच्छ त्वमत्यम्बमाम् पश्य ेषजम् त्वं भव व्याधिशान्त पदाम्भोजपोते भवाघौनिमग्नं नय स्वाद्यपारम् अनुव्यल्ललाटाक्षि बन्नि भोगिभूषाविशेषैरचङ्गूडैरतं देवतैर्णो अकण्ठे कलङ्कादनङ्गे भुजङ्गादपाणोकपालादालेन लाक्षशाङ्कादवामि कलत्रालं देवमङ्गं न मङ्गे न मन्ये महा देवशम्भो विरीशत्रिशूलिम् स्वईदम् समस्तम् विभाति यस्मात् शिवादं यथा दैवतं नाभिजाने शिवोऽहम् शिवोऽहम् शिवोऽहम् शिवोऽहम् यतो जायते तं प्रपञ्चम् विचित्रम् स्थितिं याति यस्मिन् यदेकान्तमन्ते सकर्मादिहीनो स्वयं ज्योतिरात्मा शिवोऽहं शिवोऽहम् शिवोऽहं शिवोऽहम् गिरीटे निशेषो लाटे हूताशु भुजे भोगिराजो गले का ननौ काम ये तत्ल्य दे न जाने न जाने न जाने, न जाने। साध्ययम् येन मन्ति मृतौ निर्भयासे जना सम्भजन्ति हृदम् भोजमध्ये सदासीनमीश भुजङ्गप्रिया कल्पशम्भोमयैवम् भुजङ्गप्रया तेन वृत्तेन क्लृप्तम् नरस्तोत्रमेतत्